श्रीमद्भागवत् महापुराणं दश द्वादशस्कन्ध प्रथमोऽध्यायः कृष्णनामाथ तद्ध्राता भविता पृथिवीपतिः श्रीशान्तकर्णस्तत्पुत्र पौर्णमासस्तु तस्तुतः लम्बोदरस्तु तत्पुत्र तस्माच्चे बिलको नृपः मेघस्वातीचिबिलका कादटमानस्तु तस्य च अनिष्टकर्मा हालेयं तलकस्तस्य चात्मजः पुरीसभीरुस्तत्पुत्र ततो राजा सुनन्दनः चकोरो बहवो यत्र शिवस्वातिररिन्दमः तस्यापि पुत्र पुरिमान भविता ततः मेदशिराशिवस्कन्धो यज्ञश्रीतस्सुतस्ततः द्विधयस्ततोभाव्यश्चन्द्रविज्ञसरोमधी एतेति सन्निपन्तयश्चत्वार्यब्दशतादि च षड्पञ्चासच्च पृथिवीं भोक्षयन्ति कुरुनन्दन सप्ताभीरा आवभृत्या दशगर्दभिनो कङ्का षोडशभूपाला भविष्यन्त्यतिलोलुपाः ततोष्टौ यमुनाभाव्याश्चतुर्दशं तुरुष्ककाः भूयोदशगुरूडाश्च मौना एकादशैव तु ए भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च नवाधिकां च नवतिं मौना एकादश क्षेतिम् भोग्यन्त्यब्दसुतान्यङ्गत्रीणितै संस्थिते ततः कीलिकीलायां निपतयो भूतनन्दोऽथ भङ्गिरिः शशोनन्देस्य तद्भ्राता यशोदानन्दे प्रवीरकः नित्येते वै वै वर्षतं भविष्यन्त्यधिकानि सन् तेषां त्रयोदशसुतां भवितारस्य बाल्लिकाः पुष्पमित्रोऽथ राजान्यो दुर्मित्रोऽ तथैव च एककाला इमे भूपा सप्तान्धा सप्तकोशलाः विदुरपतयो भाव्यान्निषुधास्तदेव हि मागधानां तु भविता विश्वस्फुरजे करिष्यत्य करिष्यत्यपरो वर्णान् पुलिन्दय द्रुमदुन्द्रकान् प्रजाश्चा ब्रह्मभूयिष्ठा स्थापयिष्यति दुर्मतिः वीर्यवाञ्छत्रमुस्साद्य पद्मवत्यां सवैपुरी तनु गङ्गा मां त्रयागम् गुप्ताम् भोक्षति मेदिनीम् सौराष्ट्रावन्त्याभिराश्च शूरा अर्बूदमालवाः व्रात्यादिजा भविष्यन्ते सद्रप्रायाजनाधिपाः सिन्धोस्तटचन्द्रभागां कौन्तिं काश्मीरमण्डलम् भोक्ष्यन्ते सुद्रावात्याद्याम्लेच्छाश्चाब्रह्मवर्चसः तुल्यकाला इमे राजन्म्लेच्छप्राया सभयोभृतः ते ते धर्मानृतपराः फल्गुदास्ते ब्रह्मन्यवः ते बालगोद्विजघ्नाश्च परदारधनादिताः उदितास्तमेतप्राया अल्पसत्त्वाल्पकायुषः असंस्कृताः क्रियाहीना रजसातमसा वृताः प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः तन्नाथास्ते जनपदा तच्छीलाचारवादिनः अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः ते श्रीमद्भागुते महापुराणे पारंशां शयितायां द्वादशस्कन्धे प्रथमोऽध्यायः